श्रीमद्भागवत् महापुराणं दशमस्कन्ध सप्तमोऽध्यायः नापश्यत् कश्चनात्मानं परं चापि विमोहितः तृणावर्तनशिष्टाभिशर्कराभिरुपद्रुतः इति खरपवनचक्रपांशुर्वर्षे मा शतपदवीमबलाविलक्ष्य माता अतिकरुणमनुस्मरन्त्यशोचन् भुवि पतितामृतवस्य का यथा गो रुदितम् अनुनिशम्यं तत्र गोप्यो भृषम् अनुतप्तधियो श्रुपूर्णमुख्य रुरुदुरन्नोपलभ्यनन्दसुनं पवनौमुपा रतपांशुवर्षभेगे तृणावर्तसान्तरयो वात्यारूपधरोहरन् कृष्णं नभो गतो गन्तुं नाशक्नोद्भुरिभारभि तमस्मानं मन्यमान आत्मनो गुरुमत्तया गले गृहीतौ स्रष्टुं नाशक्नोद्भुतार्भकम् गलग्रहन्निश्चेष्टो दैत्यो निर्गतलोचनः अव्यक्तरावो न्यपतनसह बालोऽं विसुर्व्रजे तमन्तरिक्षात्पतितं शिलायां विषयसर्वावयवं करालं पुरं यथा रुद्रसरेण विद्धं श्रेयों दुदत्यो जूषमेताः प्रादाय प्रतिहित्य विस्मिता कृष्णं च तस्योरतिलम्बमानं तं स्वस्तिमन्तं पुरसादनीतं विहाय सामृत्युमुखात् प्रमुक्तम् गोपस्य गोपा किल नन्दमुख्या लब्ध्वा पुनः प्रापुरतीव मोदम् अहो बतात्यद्भुतमे सदा रक्षसा बालो निवृत्तिं गमितोऽभ्यगात् पुनः हिंससु पापेन विहिंसितकल साधुसमत्वेन भयाद्विमुच्यते किं नस्तपश्चेन मथोक्षचार्जनम् पुरतेष्ट दत्तमुतभूतसौहृदम् यः सम्परेत पुनरेव बालको दृष्ट्वा सुबन्धून् प्रणयन्नुपस्थितः दृष्ट्वाद्भुतान् बहुशो नन्दगोपो बृहद्मरे वसुदेववचो भूयो मानयामास विस्मितः एकदार्भकमादाय स्वाङ्कमारोप्यभामिनि प्रस्नुतं पायामास स्तनं स्नेह परिप्लदा प्रीतप्रायश्च जन्ये सा तस्य मुखं लालयति राजन् जिम्भतो ददृशे इदं खं रोदसी ज्योतिर्नकीर्णीकपामाशा सुर्येन्दुवह्नि स्वसनाम्बुधिश्च द्वीपान्नकास्तद्दुहिते त्रिवर्णालीभूतानि यानि सरजङ्गमानि ता वीक्ष्य विश्वं सहसा राजन् देशे मद्भागते महापुराडे परमनिशां शयितायां दशमस्कन्धे परवार्थे त्रिणावरतमोक्षो नाम सप्तमोऽध्यायः